राजा राज्ञः कथं साधोन्हिंस्यान्द्रपतिसत्तमा तद्राज्ञः सन्निगृह्यत्वं रुद्रायोपजिहीर्षसि अस्मांस्तदेनो गच्छेद्धीकृतं कृतं त्वया वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः मनुष्याण समालंभो न चृष्ट कदाचन सकथ मनुषर्देव युम्छसी शंकम सवर्णों सवर्ण पशु संज्ञा क्योन एवं यहां जरासंधवृथा मति फलं समवाप्नुयात् ते त्वां ज्ञातिक्षयकरं वयमार्तानुसारिणः ज्ञातिवृद्धिनिमित्तार्थं विनिहन्तुमिहागताः नास्ति लोके पुमानन्यः क्षत्रियेष्विति चैव तत् मन्यसे स च ते राजन् सुमहान् बुद्धिविप्लवः को हि जानन्नभिजनमात्मवान् क्षत्रियो नृप नाविषेत्स्वर्गमतुलं रणानन्तरमव्ययम् स्वर्गं ह्येव समास्थाया रणयज्ञेषु दीक्षिताः जयन्ति क्षत्रियालोकांस्तद्विद्धिमनुसर्षभा स्वर्गयो निर्महद्ब्रह्म स्वर्गयो निर्महद्यशः स्वर्गयो निस्तपो युद्धे मृत्युः सोऽव्यभिचारवान्